अपत् दशकं भगवान् ऐश्वर्य अ जाने जाने यदि गतव भक्तेषु विभवो न सत्यसम्बत्यग तदि गमदकृत्वा दशमिना प्रशान्तिं कृत्वैव प्रदिचसे तद काममखिलं प्रशान्ते चोक्षिभ्रो न खलु भवदे ये च्युदि कथा सत्यं प्रसादरुषितान् विधिशङ्करादेन केचित् निज गुणानुगुणं भजन्तक भ्रष्टा भवन्ति पदकष्टमधिकदृष्ट्या स्पष्टं भ्रगं सुरम् उदाकरणं किलस्मन् सगुनिजः सदुनरदमे गता करिततोषमभ्रच्छ ददीश्वर सचति ते शिरेशमुपासितो न दु भवन्तमभन्तमसादुषो भस्तत्त्व घोरं सकलकोपितसप्तमदिने चिरचैत्वसज्ञ पुरकरमवस्ताभ्यपुरोधक आदिक्षोद्रं रौद्रं शिरसिखरतोनेन निदनो जगन्नादौरे भवति विमुखानां पशुपती हे मुक्तो रम्बन्धमुक्तो हरिणपतिरिव प्रात्रवत्सोदरुद्र दैत्या भीत्यास्मदेवो दिशि दिशि मलते पृष्ठतो दो दत्तदृष्टिः दोष्णिखें सर्वलोके तव पदमतिरोक्षन्दमुद्वीक्ष्य समो दोरा देवाक्रदस्तु पटुवटु वपुषा वा दस्तिषे दानवाय भद्रं ते शकुणीय भ्रमसि किमधुना त्वं पि चोचस्य वाच सन्देह गच्छेन्मदुक्तो तव किमु न करोष्यङ्गुलीं मङ्गमूलौ एतं त्वत्पाक्यमूढक शिरसि कृदकरक सौभदन्नपात भ्रांशोके वां परोपासितुरभि च गति शूलिनो ृकं किल सरस्वते निकटवासिनस्ताभसाका त्रिमोदिशु समादिश अधिकसत्पतां विज्ञा पयं पुनरनादरा दुरिदत्तरोषेभिदो हरेऽपि च जगिं सुषा गिरिजया त्रिदे त्वामकात् शुद्धं बिभ्रे विनि न दिपदे नमुदोदितस्त्व सर्वं क्षमस्व मो निभज्य भवे सदा मे तत्पादचिह्नमिघ भोषणमित्यवती के निश्चित्यते च सुदृढं त्वयि भत्त बाबाका सारस्वता मुनिवरा दधिरे मे मोक्षं त्वामेव मच्छुद पुनच्छुदि दोषकीन सत्वोचयैकतनुमेव वयं भजामक जगस्रेष्ठातौ सच्चिन् वेष्णो सचिन् परमरसनिद्वैतवभुषु परात्मानं भो मल्ने पशुपवनिता वाक्यनिभकौ परितापशान्त्ये पवनपुरवासि परिभजे सर्वत्र गोविन्दनामसंकीर्तनं गोविन्द गोविन्द <coughs> तन्नूरां दशकं प्रम्मं ओन्दान् मृगभृगमुनिमोहि अम्बरीक्षादिमृत्तेषो अयि तव किमहत्वं सर्वशर्वादिजैत्रौ स्थितमिह परमात्मल् निष्कळार्वाकभिन्नौ किमपि तदवपातौ तत्तिरोमा तवैव मूर्तित्रयेश्वर सदाशिवपञ्चकं यत् प्राघु परात्मवपु रेव सदा शिवोऽस्मिन् तत्रेश्वरस्तु सविकुण्ठपदस्त्वमेव त्रित्वं पुनर्भजसि सत्यपदे तृपके तत्रापि सात्विकतनो तव विष्णमो गोको धातातु सत्त्वमिरलो रजसेभपूर्नग सत्त्वोत्कटत्वमपि चास्ति तमो च तव शङ्कर निमूर्तो क्षत्रिमूर्त्यधिकं परपोरुषं त्वां सर्वात्मना वि खलु सर्वमयत्वहेतोको शं सङ्ख्युपासनविदो तदभिस्वदस्त तत्रोभमित्यधि दृढं बहु न श्रीशङ्करोऽपि भगवान् सकले श्रुतवत् त्वामेव मानय धियो न जक्षपाते त्वन्निष्टमेव सखि नाम सखशति व्याख्याद्भवस्तुति पर छगदिं गदन्ते मूर्तित्रयाधिगमुवाच च मन्द्रचास्र्याथो कलाय सुषमं सकलेश्वरं त्वां ज्ञानं च निष्कळमसां प्रणवे क्ता त्वामेव तत्र निजकादनान्यं समस्तसारे च पुराणसङ्ग्रहे निशंशयं तं मयि मयि भण्यते त्रिमूर्तयोक् सत्यवद त्रिपाकदक परं पदं ते क्वतं न शूलिनक यद्भ्रामकल्पयिगभागवद तस्यैव नाम करिषद्वमुखं जकाद श्रीमाधव शिवपरोऽपि पुराणसारे ये स्वप्रकृत्यनुगुणा गिरिशं भजन्ते तेषां बलं विदृढयैव ते यभक्त्या व्यासोकितेन कृतवान् अधिकारि हेतोक स्कान्तादिके क्षुतव निवचोर्थवादैके भूतार्थकीर्तिरनुवादभिरुत्तवाद प्रेतार्थवात कदय खलु रोचनार्ताका स्कान्तादिकेषु भगवोत्र विरुद्धवाता का त्वत्तामसत्त्वपरिभो युभशिक्षणात्याका यत्किञ्चिदप्यविदुषापि विभो मयोक्तम् तन्मन्त्रशास्त्रवचनाद्य व्यासोक्तिसारमय भागवदो भगीतक्लेशाक्ति परं परात्मन् सर्वत्र गोविन्द नाम सङ्कीर्तनं गोविन्दोविओ <laughs> <laughs> <laughs> भयमद् भक्तिमार्गं श्रीकृष्ण त्वत्पदोपासनमभयतमं बद्धमिदार्थदृष्टे स्यार्थस्य मन्ये व्यवसरधिमयं येन सर्वात्मनैव यत्तावत्त्वत्प्रणीतानिकभजनवितीन् ये आस्थितो मोघमार्गे तावन्नाज्ञा वृदाक्षक स्खलदि न गु देवदेव किलात्मन् कोमल्कायेन वाचा मुगुरपि मनसा त्वत्फलप्रेरितात्मा यत्तत् कुर्वे समस्ता तधिकपरतरे त्वय्यसा वर्पयामि त्यापे स्वभागस्वै निहितमनकन्म वाकेन्द्रियार्थप्राणो विश्वं पुनीते तदुभिमुखमनाग तत्पदाद् विप्रवण्यगामत्मते याद्भवत् ननु मनः कल्पितं चक्ति देयो तेने क्यासचीलौं कृदयमिक यदा शक्ति बोध्य निरुह्या माया वित्ते तु तस्मिन् पुनर्विन तथा भाते मायातिनाथो तत्त्वां भक्त्या मगत्या सददमनुभजन् एष भीतिं प्रियज्ञा भी भक्तेरोत्पत्तिवृद्धे तव चरणजुषां सङ्गमेनैव पुंसां आसा ते पुण्यभाजां श्रियैव जगते श्रीमतां सङ्गमेन तत्सङ्गो देवभूयान् मम खलु सदतम तन्मुखादुं निषद्मिहे त्वन्माहात्म्यप्रकारैके भवति बबदीच सुदृढा क्तिरुद्धोतपाप श्रेयो माध्येषो भक्ता वदिग बगुमदिन जन्मकन्नाणि भो योगाय क्षेमाणिनामान्य तदुभयत प्रत्र प्रतृदात्मा अद्य स कदाचित् क्वचितपिरुदन् क्वाभि गर्ज प्रायण्मा देव प्र अयि कुरु करुणां लोकभाग्यचरेह्यो भूतान्येतानि भूतात्मकमपि सकलं पक्षिमस्यान्मृगादेन मर्त्यान् मित्राणि शत्रून् मे यमितमधिये तन्मयाञ्जानमानि त्वत्सेवायां यि सिध्येत् मम तव कृपया भक्तिदाढ्यं विरोगक त्वत्तत्त्वस्यावबोतोऽपि च भुवनपते यत्नभेतं विनैव नो मोक्ष्यं क्षुदृढात्यैके भव सरणि भवैके त्वं निलीना चिन्ता साधत्यशाले निमिषलवमपि त्वत्पदादप्रदम्बद इष्टानिष्टेषो तोष्ट्यं व्यसनविरहितो मायि गत्वा बोधात् ज्योत्स्नाभिस्त्वन्न केतोको अधिगचि चिरिदे नात्मना आत्मना यो बोधेष्वेषो त्वदैक्यस्मृतिसमधिगतौ नाधिकारो दु न चेत् त्वत्प्रेम त्वत्कमैत्री जठ मदिषु कृपा दिशभो येक्षा अच्छायाम्बा समच्छां कुदुकमुदर श्रया वर्ततां मे त्वत्सं सेवे तथा मे धृतमुपलभते ोपा क्षिदिजलमरुदात्यात्मना विक्षिपन्तीम् जीवान् वो यत्र कन्ना बलिविव दुःखजाले जाले त्वं माया मा विभो माम् अयि पुवनपते फल्पदे तत्प्रशान्ते तत्पादे भक्तिरेवेद्य ददय विभो सिद्धयोगे प्रबुद्ध दुःखानालोक्यं जन् दुष्फलमिदितमिवे कोहमाचार्यवज्यात् लब्ध्वा तत्रोपत गुणचरितगताद् युद्भवद्भक्तिमो मा। मायामेनां धरित्वा परमसुखमये त्वत्पदे मोदिताके तस्यायं पूर्वरङ्गकपवनपुरपते नाशयाशेषकान् सर्वत्र गोविन्दनाम सङ्गीर्तनं गोविन्द गोविन्द <laughs> तन्ूं दशकम् पर्म भगव वेदै सर्वाणि कर्माण्यफलपरुदया वर्णितानिति बुद्ध्वा तानि चैयर्पितान्ये वये समनुचरन् यानि नैष्ण्यमेष मा भोद्वेदै न शैत्ये गुवचितपि मनः कर्म वाचां तदपि कलु भवद्ध्ये चित्प्रकाशे यस्वन्यकर्मयो तव भजनमयस्तत्र चोपेष्टमूर्तिम् ृद्यां सत्वयिकरो पां त्रिषदि कृतिमृते पापि वा पावये त्वा पुष्पैर्कन्दै नैवेद्यैके अपि च विरचितैके शक्तिदो भक्तिपूतैके नित्यं वर्यां सपद्यां विधदयि विभो त्वत्प्रसादं भजेयौ त्रिशोध्रका त्वत्कथा ते श्रवणविरगिता का आसतां ते दयार्का तत्पादा तिजकुलजनुषो हन्दशोचम्यशान्तान् प्रत्यर्थं ते यजन्तो बहुकथितमपि त्वामनाकर्णयन्तो दृप्ता विद्याभिजात्यैके किमु न विदधते तादृशं मा कृता मां पापोऽयं कृष्णरामेत्यबिलपते निजं कोखिदं दुच्छरित्रम् निर्लज से शवाच बहुत यानी मे विघ्ता प्राता मे भजशील भजति किल सता विष्णमित्तं बुदां स निन्द्युच्छेखसन्ति कैनिगिदमदेत् दादृशं मा प्रदेत्वां मुनिवरवपुषं प्रीणयन्ते तवोभिगे श्रेधायां शक्षुवाद्यङ्गितमरुणतनुं यज्ञरूपं यजन्ते सेवन्ते तन्त्रमोज्ञैके विलसदरि कदं नीलं सङ्केतनाध्यैके एककलिसमये मानुषास्वां भजन्ते सोऽयं काले यकालो जयति मुररिपो यत्र सङ्केतनात्यैके निर्यज्ञैरेव मार्गैके अखिलधनचिराद् तत्प्रसादं भजन्ते जादा श्रेता कृदात अभिः संभवं कामयन्ते देवा तत्रैव जातानि विषय मा माविबो वञ्चयास्मान् भक्तास्तावत्कल स््युको प्रमिलपुवि ततो भोरिचस्तत्र शोच्चैके कवेरें पाम्रपण्ं मनुकिल प्रदमालां च पुण्यां प्रदेचे हा माम् अभ्येदधन्धर्भवमपि च विभो किञ्जित संथै आशापाशैन्यबत्य प्रमय न भगवन् पोरयत् तन्निषेभा दृष्ट्वा दन्मद्रगं तम कलिमपकरुणं प्राङ्मगेक्षित्परिक्षित् पन्थं व्याकृष्टगद्भोपे नविनिगतवान् सारवे ते गुणं चात् तत्सेवाज्ञा सुसिद्ध्येत् असधिकनदता त्वत्परे चैषबेरुको यत् प्राकेवरोकाधिभिरबकरते तत्र क शिक्षयै नो गङ्गाकेता च गा यत्र विचतुलसिकां गोपिका चन्दनं तदे शाले क्रामापि पूजा परपुरुष तदेकादशे नाम वर्णाक एतानष्टाभ्ययत्नान्यये कलिसमये तत्प्रसादप्रवृत्य क्षिप्रं मुक्तिप्रदानेत्यभिदुरुषयक तेषु मां स येता का देवर्षीणां पितॄणाम् अभिनपुनऋणे किङ्गरो योऽसौ सर्वात्मना त्वा चरणमुपगदत् सर्वकृत्या निहित्वा तस्योत्पन्नं मे कन्माप्यकिलमवनुतस्येव चित्तस्थिदस्तो तन्मे पापो पवनपुरपते पान् पवनपुरपते सर्वत्र गोविन्द नाम सङ्गीर्तनं गोविन्द गोविन्दि मूनाम् दशकम् ज्ञानिके विधिनिषेधं कर्याद् बन्धोऽस्मेकं विजख्यां तव करुणया त्वय्योपावेचिदात्मा सर्वं त्यक्त्वा चरेयं सकलमभिजगत् मीक्षं मायाभिसं नानात्वात् प्रातिज्ज्ञात् सदि खलु गुणदोषावबोधे विधिन्वा व्यासेदो वा कथं तो त्वयि निगितमते पीतवैषम्यबुद्धे गे क्षुद्रष्टालोपमात्रे सददकृदधियो जन्दव स्यन्दनन्दाका तेभ्यो विज्ञानवद्मात् पुरुषयुगवरक तज्जने दुर्लभेभ भा तत्राप्यात्मात्मनः स्यात् सुकृदविचर्योको यस्पयण्यस्त चेत्ताका स्मरसगे सुकृद स्वात्मवैरे ततो तत्कारुण्ये प्रवृत्ते कैववनगे गोरल्लोकवृत्ते विभूमन् सर्वक्रान्ता विभूमि नगी चलति तक्षमां शिक्षये ीयामीश तत्तद्विषयपरिचयेभ्यः प्रसक्तिं समिरात् व्याप्तत्वं चात्मनो मे गगनगुरुवशात् पादो निलेपदा च स्वच्छस्यां पावनोकं मधुरबुदगवद्पङ्किबन्मा स्म गृह्हां दोषौ करुषुतमिव मां सर्वभूतेष्ववेह्यां पुष्टिं नष्टिकलानां शचिनैव धनोको आत्मनोऽस्ति देवेद्यां तोया दिव्यस्तमात्ताण्डवदपि च धनुष्वे गतां त्वत्प्रसादात् शेखाद् यातोस्तपुत्रप्रणयमृदकपोतायितो मा स्वभो प्राप्ता ष्ट्रंसकेय च्युतमभिषयुवद् सिन्धवस्यामघातग मा भक्तं योषिदातो शिकिनि छलभवद्भृङ्गवत्सारभाये भूयासा किन्तु तत्पत् धनचयनवशात् मा गमेशप्रणेया मा भत्यासं तरुण्या गजैव वशया नार्ययेयं ो गवार्तान् न्यस्ते मोदी करैव मृगवद वामोग ब्राह्म्य गीतये ना सज्जय जष इव भणिशे पिङ्गलावन्निरसख स्वज्ञा भर्तव्ययोगात् कुररैव विभो सामिषोन्यै न कन्यै भर्तेय त्यक्तमानः सुखमतिशुभदे निःसकायचरेण कन्याय एकशेषो बलय इव विभो तच्चेतो न वा बोध्ये परमे शङ्क्रदेवा ष्वा प्रदायानघोषौ हे वन्यप्रणीतेषो अगिरिवनिवसान् युधुरोधिरेषो त्वय्येव त्वत्कृतं त्वां क्षमयसि जगदित्योर् न नापात् प्रतीयां त्वचिन्ता त्वत्सरोपो कुरु दैदि च देखो भवदे गुरुवरो यो विवेकं विरक्तिं दत्ते सञ्चिन्त्यमानो मम दु बगुरुजा पीडितोऽयं विशेषाद् े हि मे त्यज पवनपुरादिश यत्प्रेम केतोको हे हे मित्ते कलत्रादिषु च विवचिताका त्वत्पदं विस्मरन्ति सोऽयं वक् शुनो वा परमेकपरदः साम्प्रदं साक्षिकर्ण तज्ज्ञेक्पात्या विघर्षन्त्यवचमतये तोपि ब् जोदेकमुखो यते पुनरधुना दर्जिनीस्य शरोकान् कृत्वा भक्तिं प्रदिष्टां गुरु तव पदपङ्केरुगे पङ्कजाक्ष नूनं नाना भवन्ते समधिकदमिमा मुक्तिदं विप्रदेकं श्रुत्रेखा हन्त माक्षिबविषय रसे पाहि मां मारुदेश सर्वत्र गोविन्दनामसङ्गकीर्तनम् Govinda Govinda Tanati nalam dashakam आत्मा शरीरङ्ग् पोन्दल् <laughs> वन्हेर् दारुप्रभेतेषो दिवमगदणुता दीप्त शान्तता ते आचाराज्ञातरस्तारण्य समनुमिलच्छिष्यरूपोत्तरारण्यापेधा वासितेन स्फुटतर परिबोधाग्निना दह्यमाने कन्माले वासनादत्कृदधनुभो प्रान्तार पोरे भावेन विद्या चिकिनि च विरधे त्वन्मये कल्भवस्ता एवं तत्प्राप्तिदोऽन्यो न किलु नि किल क्लेशकान्यपायो नैकान्दात् लिकास्ते कृषिवदगद षट् पुण्य षट् तन्मयोका दुर्वे कल्यैरकल्या अपि निगमपता तत्फलानप्यभ मत्तः स्वां विस्मरन्तक प्रसजति पतने यान्त्यनन्दान् विषादान् त्वल्लोकाधन्यलोककपन् भयरगितो यत्परार्तयान्ते त्वद्भितसत्यलोके मे न सुखवसतिगे पद्मवो पद्मनाभा एवं भावे तदन्माजितभुतमसां काकतानारकाणां तन्मे त्वा चिन्दिपं तां वरद कृपणबन्धो कृपा भोरसिन्धो यादार्त्यामयस्यैव मम न विभो वस्तुदो बन्धमोषो माया विद्यादनुप्याम् तवद् विरचितौ स्वप्नबोतोपमोतो बद्धे जीभक्तिमुख्यं गदवधि चबिता कावती तावते को भुङ्क्ते देभद्रमस्तो विषयबलरसान् नापरो निर्भ्यतात्मा जीवन्मुक्तत्वमेव विदमिति वचसा किं बलं दोरदो रे तन्नामशुद्धबुद्धे के न च लघु मनसोधन भक्तितोऽन्यद् तन्मेष्टं गृहीष्टौ का त्वयि कलप्रार्पणो भक्तिभारं येन स्यां मक्षु त्वत्प्रबोधस्त्वदात्मा शब्दब्रह्मण्यपि प्रयतति मनसक त्वां कष्टं वन्द्यश्रमास्ते चिरतरमिगकां विप्रदे निष्प्रसूतिं यस्यां विश्वापि रामाका सकलमलकराका दिव्यलीलताराका सच्चे सान्त्रं च रोप तव न निगदितं तां प्रियासं यो या, या वा यादृशो वा भगच्छामि भोमन् एवं चानन्यबावक त्वदनुभजनमेव ध्रिये चैत्यवैरेण त्वल्लिङ्गानां त्वदङ्ग्रिप्रियजनसदसां दर्शनस्पर्शनादिके भूयान्मे त्वत्प्रभोचानतिनुते गुणकन्मानुकेत्यादरोऽपि यत्यल्लप्येत तत्तत्तव समुपकृतं देव दासोऽस्मि स्वे कोन्मार्जनाद्यो भवतु मम मम गो कर्म निर्माय मे भूर्याग्निब्राह्मणात्मा दशो लसितचतुर्पकुमारादये त्वां त्वत्प्रेमार्थत्परोपो मम सददमविषयं दत्ता भक्तियोक ऐक्यं ते तानको मम प्रदनियमतपःसांख्ययोकै तु तसंगे नैवकोप्यका कोप्यक किल सुकृदि तमा का प्रापुरानन्तसान्त्रं भक्तेष्वन्येषो तन्मे त्वद्भक्तिमेव द्रुटय परकथान् कृष्णवाताल सर्वत्र दशकम् भगवने जीवनाग आवत् आदौ तनमविगल तन्मभिगलजीवात्मिकाम् आस्थिदस्त्वं जीवत्वं प्राप्य माया गुणगणकचितो वर्तसे विश्वयोनिः तत्रोद्बृद्धेन सत्वेन दुगुणयुगळं भक्तिभावं गतेन चित्वा सत्त्वं च हित्वा पुनरनुबगितो वर्तिता हे त्वमेव सत्त्वमेषात् कदाचित् फलविषयरसे दोषभूते बिभू मल्ने कोयोप्येषु प्रवृत्तिये सदमसि रजसे रोतदे दोर्निवार चेत्तं तावत् गुणश्च प्रदितमिकमिधस्थानि सर्पाणि रोतु तोर्ये त्वय्येकभक्तिगे चरणमिति भवान् हंसरूपे जगादेत् चन्दे श्रेयां शिभोयां शबे रुचिभिदया कर्मिणां निर्मितानि श्रोत्रानन्दाश्च सन्ताका कृष्णदेव्यो भवेयुको त्वं चाचक्यादसङ्ख्ये ननुमयिततमां श्रेयसां भक्तिमेकां त्वद्भक्त्यानन्दतुयक खलु विषयजोषां सम्मदके न वा स्यात् त्वद्भक्त्याष्टभोद्धेके सुखमिकचरतो सलेल गोगरा कस्यवा तोयय कमैया ग सोयम कलवे त्रलोका कमलज भवना योगसिद्धिच ग्रध्या का नाकाङ्क्षे दतास्तां स्वयमनुपदिते मोक्षसौ केऽप्यनेकग त्वद्भक्तो बाध्यमानोऽपि च विषयरसैके इन्द्रियाशान्तिगेतो भक्त्यैवाक्रम्यमाणैके पुनर्बिकलु दे दुर्बले नाभिोके तदैव प्रदगदिवाद पेत्रिया चिद्धात्रे बाब मोचै पर्षबाष्पं चहि चित्तं शोद्येत् कथं वा किमुपगुतपसा विद्यया वेदभक्ते हे तत्कास्वात् सिद्धाञ्चन स ददमरे मृज्यमानोऽयमात्मा यमात्मा षोट तत्त्वसोत्मं भजते नदु तताभ्यस्तय गर्गकोक्ष ध्यानं ते चेलयेया समदनसुगबद्धासनो नासि चित्तभत्मवाञ्चम् ऊर्ध्वाक्रं भावये त्वां रविचकेन सम्बेचिन्त्यो परठ तत्र स्वा पावये त्वां स जलजलधरश्यामला कोमलाङ्क आनीलश्लक्ष्मकेशं ज्वलितमकरसत्पल्टल मन्तकासस्य दार्त्र कौस्तुभशीं परिगतवनमालोरुकार विरामो श्रीभत्साङ्कं स्वभाका काञ्चनचायचेलं चारोस्निग्धोरमं भोरुक ललितपदं भावयेकं भवन्तो सर्वाङ्केष्वङ्करङ्गत् उदगमिते मुहुर्धारयन्ने चित्तौ तत्रात्रयुञ्जे वदनसरसिजे सुन्दरे मन्थकासे तत्र लीनं तु चेतक परमसुगचितद्वैतरूपे विदम्बङ्ग अन्यन्न चिन्तयेयं मुकुरुते समुभारूढयोक भवेय एतं त्वध्यानयो के सदि पुनरणिमाद्यट्टसंसिद्धयस्ताका दूरश्रत्यादयोऽपे जगमगमिकया संवदे यत् पुरारे तत्सम्प्राप्ता विलम्बावकमखिलमिता नात्रिये कामयेक का त्वमेवानन्दपूर्ण पवनपुरपते पाहि सर्वत्र दशकं भगवान् विभूति पक्षि कुरुवत् त्वं किं ब्रह्मत् परमोर्मक्षराणां हरो मन्त्रेषो राज्ञां मनुरसे मनुषोत्त्वं प्रकुर् नारतोऽपि दानवाना पशुषु च शुरभिके पक्षिणा वैनदेयक नाकानामस्य नन्दक सुरसहिदपि च षोधसा विश्वमूर्ते ब्रह्मयानां बलिस्वा प्रदुचुषजपयज्ञो ोऽसे वीरेषु पार्थक भक्तानामुद्धवस्व बलमसि बलिनां काम तेजस्विनां त्वं नास्य दस्त्वत्मि भूते विगसदतिशयो वस्तु सर्वं त्वमेव त्वं जीवस्त्वं प्रदानं यदि गभवत् हृदे तन्न धर्मं वर्णाश्रमाणां श्रितिपथविखिता त्वत्परत्वेन भज्ञा कुर्वन्तोऽपिके विगसदि चनकैके सन्त्यजन्तोल्लभन्ते श्रद्धास्फूर्त्ये प्रियत्वात्मकमखिलपथोर्त्येषु भिन्नेषु भिन्नम् निर्मूलं विश्वमूलं परममखमिति त्वत्विभोतं विशुद्धं ज्ञानं खन्ना विभक्तिस्तृदयमिकभवत् प्रापकं तत्र तावत् निर्भिण्डानामशेषे विषय इग भवेत् ज्ञानयोगेति सक्तानां कर्मयोककः त्वयि विनिगतो येदो नात्यन्तसक्ता का नाप्यत्यन्तं विरक्ता का त्वयि च धृतरसाका भक्तियोकोक्यमेषा ज्ञानं त्वद्भक्तताम्बा लघुसुहृदवशात् मर्त्यलोके लभन्ते तस्मात् तत्रैव जन्म स्पृशयति भगवन् नाकको नारको वा आविष्टं मां तु दैवात् भवजलनिधि पोतायिते मर्त्यते के त्वं कृत्वा कर्णधारं गुरुमनुगुणबोधाय दस् कारये ता अव्यक्तं मार्गयन्तः श्रुतिभिरविनयैः केवलज्ञानलुब्धाः क्लिश्यन्ते ते वसिद्धिम् बहुदरजनुषाम् अन्ध एवाप्नुवन्ति दूरस्थकर्मयो कोऽपि च परमफले नन्वयं भक्तियोगग त्वामूलादेवकृत्यग रिदमभिभवन् प्रापको वर्तता मे ज्ञानायैवादियत्नं मुनिरभवत ते ब्रह्मतत्त्वं तु शृण्वल्ले भाडम् त्वत्पादभक्तिं चरणमयधियस्तस्य मुक्तेः कराग्नि तद्ध्यानेऽपि कतुल्या पुनरसुकरता चित्तचाञ्चल्यकेतो अभ्यासादाच्यो तदभिव चितु तत्कृपा चारुदाप्या निर्बिणः कर्ममार्गे खलु विषमतमे तत्कथा तौ च गाढं यादश्रद्धोभिकामान् अयि भुवनपते नैव शक्नोमि कातो तद्भो यो निश्चयेन पयि निगतमनाका दोषभूद्या भजं स्थान तोष्णीयां भक्तिमेव पयि हृदयगते मंक्षुनङ्क्षन्ति सङ्गाका कश्चित् क्लेशार्जिदातक्षय विमलमतिर्नुज्यमानो जनो गे प्रां प्राप्रो न खलु मम जनकलकर्मग्रहभा चेतोमे चेतो मे दुःखचेतको तदिगुणगणं भावयत्सद्वकारेक्ता शान्तो गदस्त्वां मम च गुरुविपो दातृशें चित्तशान्तिम् अहिलप्राकुण्डें प्रत्यदिवचमनाखा सेवमानश्चिरं ताम् ढं निभूयो युवतिसुगमितं क्षोत्रमेवेति गायन् त्वद्भक्तिं प्राप्य पूर्णः सुखतरमचरते तत्पदुद्भूयसङ्गं भक्तो तं संक्रिया मा पवनपुरपते कन्द मे रुन्दिकान् सर्वत्र गोविन्दनाम ूम् दशकं मुगुणम नम्बूद्रि वेदल् ध्यानं श्रद्धा च कर्ता वसतिरभिसुखं कर्म चाकारभेता का त्वत्क्षेत्रत्वन्निषेमो चित् यदि कपुनक त्वत्परं तत्त्वसन्धं प्राकुण्नैपुण्यनिष्टो तदनुभजनतो वंक्षसिद्धो भवेयो त्वय्येवन्यस्तचित्तक सुखमयि विचरन् Chet-pachin-sthaw-sweather-tum-ah तद्भक्ते सेव्यमानान्न विचरितचरान् आश्रय पुण्यदेशान् तस्यो विप्रे न कोतिष्वमि च सममदेपमानस्पर्धा सूयादिदोष सदतमखिलभूतेषो संभोजयेता त्वद्भावो यावदेशो स्पर्दे न विशत Satsang with Mooji पूर्वं नैकात्म्य बोधे झटिति विकसति त्वन्मयोकं चरेह्यो त्वद्धर्मस्यास्य तावत् किमपि न भगवन् प्रस्तुतस्य प्रणाशक तस्मात् सर्वात्मनैव प्रदिश मम विभो भक्तिमार्गं मनोज्ञो तं चैनं भक्तियोका तृणयितुमयि योगो दृश्य तत्राभिसेव्यं तव चरणमघो भेषजायेव दौ मार्कण्डे योगे पूर्वं कणगनिगदि दत्वा दशाब्दाय रोचैके सेवेत्वा वत्सरं त्वां तव भटनि बकैके द्रवया मार्कण्डे यच्चिरो युगो सकल पुनर्बे त्वत्परः पुष्पभद्रातिरे निन्ये तपस्यन् अतुलसुपरतिके क्षत्तुमन्वन्तराणि देवेन्द्र सप्तमस्तं सुरयुवधिमरुन्मन्मदे मोघयिष्यन् लोकोष्मप्लुष्यमाणैके मा न तु पुनरजगत् त्वज्जनो निर्जयेत् तख प्रीत्या नारायणं क त्वमदनरसख प्राप्तवानस्य पासाम् तोष्ट्या तोष्टोयमानक सद्विधवरैके लोभितो नानु मेने दृष्टं मायां त्वदीयां किल पुनर्वृणोदे भक्तितृप्तान्तरात्मा मायादुःखान्भिज्ञ तदपि मृगयते नूनमाचर्यहेतोः ते त्वय्याशो वाधा कुलजलदगलतो यपूर्णाधिकोण सप्त न राशिमग्ने जगदि सदु जले सम्भ्रमं वर्षकोटिः तेन प्रचोरे वडतलशयनं कञ्जिदाच्छर्यबालं त्वामेव श्यामलाङ्कम् वदनसार चेद न्यस्तपाताङ्कुलेको दृष्ट्वा त्वां पृष्ठरोमा ध्वनितमुपकदक कामो पृष्टकामो मोनेन्द्रग च्वासे नष्टक पुनरिग सकलं पृष्टवान् विष्टपौकौ भूयोसभौतैके भगिरनुपतितो भिक्षिदश्चैके मोदा दाश्रेष्ठकामक का त्वयि बिगिततनो सहस्रमे प्राक्वदासेत् कौर्यासा ं दध प्रे पुरभि तदकथ प्रेक्षणाते सिद्धानेवास्य वास्यदत्वा स्वयमयमजरा मृत्युदाति वदोऽबूत् एवं त्वत्सेवयैव स्मरपुरमि सम्प्रीयते येन ये तस्मात् मूर्तित्रयात्मकस्मा ननु सकलनीयन्ते ते स्म सत्यलोके विधि हरि पुरपि ते मन्दिराण्योर्दमोर्त देप्योप्योर्तम् तु माया विकृतिविरहितो पाधि वै कुण्ठलोक तत्र त्वं कारणं पश्य मे करोपे शुद्धसत्त्वपे सचि ब्रह्मात्मयात्मा पवनपुरपते पाहि मां मुखरारविन्देन पदारविन्द मुखारविन्दे विनिवेशयन्तं पटस्य पत्रस्य पुणेशयान बालं मुकुन्तां मनसा स्मरामि सर्वत्र गोविन्दनामसंकीर्तनं